भागवत महापुराणं न षष्ठोऽध्यायः इक्ष्वाकुके वंश का वर्णन् मान्धाता और सौभरि ऋषि की कथा श्रीशोकुवाच विरूप केतुमाचम्भू अम्बरीसुताश्रयः विरूपात् प्रसो भूतत्पुत्रस्तु रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थितः अङ्गिराजनियामास ब्रह्मवर्चस्विन सुतान् एते क्षेत्रे प्रसूता वये पुनरस्त्वाङ्गिरसा स्मृताः रथितराणां प्रवरा क्षेत्रोपेताद्विजातयः क्षुवतस्तु मनोर्जज्ञे क्ष्वाकुर्घ्राणतः सत्रं तस्य पुत्रसज्ज्येष्ठां विकुक्षे निमदण्डकाः तेषां पुरस्ताद्भवन्नार्यावरते निपानिप पञ्चविंशति पश्चाच्च त्रयो मध्ये परेऽण्यतः स एकदाष्टकाश्राद्धे इक्ष्वाकुसुतमादिशन् एक मांसमानीयतां मेध्यं विकुक्षे गच्छमाचिरम् तथेति स गत्वा मृगान् हत्वा क्रियाहृणान् शान्तो विभुक्षितो वीरशसं चादपस्मृतिः शेषं निवेदयामास पित्रे तेन च तद्गुरुः चोदितप्रोक्षणायाः दुष्टमेतद् कर्मकम् ज्ञात्वा पुत्रस्य तत्कर्म गुरुणाभिहितं नृपः ते शान्ति सारयामासुतं त्यक्तसिं मृषा स संवादं जापकेन समाचरन् त्यक्त्वा कलेवरं योगी स तेनावाप यत्परं पितर्योपरतेभ्येत्यभिकुक्षे पृथिवीमिमां सासदीजे हरिं यज्ञैष साद इति विश्रुतः पुरञ्जयस्तमस्य सुत इन्द्रवाह इति ऋतः ककुत्स्थ इति चाप्युक्त श्रुनामानिकर्मभि कृतान्त आसीत समरो देवानां सह दानवैः पाष्णीग्राहो मृतो वीरो देवै दद्य पराजितैः वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभो वाहनत्वे वृतस्तस्य बभुवेन्द्रो महावृषः स संनद्धो धनुर्दिव्यम् आदाय विशिखाचितान् सूयमानसमारुह्य युयुसोकुदीस्थितः ते दसाप्यायितो विष्णो पुरुषस्य परात्मनः प्रदित्याम् दिशुदैत्यानाम् न्यरुणन्त्री दसै परपुरम् तैस्तस्य चाभूत्प्रसनं तु मुदं लोमहर्षणं यमाय भल्लैरन्यं दैत्यान् येऽभि ययुर्मधे ये तस्ये सुपाताभिमुखं युगान्ताग्निविवोल्बणं विसृज्य दुद्रुवयं बुर्दैत्या हन्यमानासुमालयं जित्वा पुरं धनं सर्वं संसृकं भज्रपालये प्रत्यच्छसराजर्षीति नामभिराहितः पुरञ्जयस्य पुत्रो भूजलीनां तस्तुतः पृथु विस्मिरन्ध्रे तन्ततश्चन्द्रो यूना स्वस्तितः सुतः साम्बस्तत्सत्तु सो येन साम्बरस्ति निर्ममे पुरी बृहदस्वस्तु साम्बस्ति स्वतः कुङ्कुलेयाश्वकः य प्रियार्थमुतं कस्य धुन्धुनामासुरं बली सुतानामैकविंशन्त्या सहस्रैरहनन्वितः धुन्धुमार इति ख्यातं तत्स्तुतास्ते च जज्ज्वलुः धुन्धोर्मुखाग्निना सर्वेऽत्र एवावशेषिताः दृढाश्व कपिलाश्वश्च भद्राश्व इति भारत दृढाश्वपुत्रो हर्यश्वो निकुम्भस्तस्तुत स्मृतः बृह्णासो निकुम्भस्य कृशाश्वस्थास्य सेनजे यवनाश्वो भवत्तस्य सोनपत्यो वनं गतः भार्यास तेन निर्विण्ण कृपालवः इष्टिं स्मं दर्तयाश्चक्रुन्द्रियते सुसमाहिताः राजा तद्यज्ञसदनं प्रविष्टो निशितर्षितः दृष्ट्वा शयानान् विप्रास्तान् पपो मन्त्रजलं स्वयं।